विभीषणश्च धर्मिष्ठ उपास्ते भ्रातरं प्रभुं हिमवान्पारियात्रश्च विन्ध्यकैलासमन्दराः मलयोदर्दुरश्चैव महेन्द्रो गन्धमादनः इन्द्रकीलस्सुनाभश्च तथा दिव्यौ च पर्वतौ एते चान्ये च चा बहवः सर्वे मेरुपुरोगमा उपासते महात्मानं धनानामीश्वरम् प्रभुम् नन्दीश्वरश्च भगवान् महाकालस्तथैव च शङ्कुकर्णमुखाः सर्वे दिव्याः पारिषदस्तथा काष्ठकुटीमुखो दन्ती विजयश्च तपोधिकः श्वेतश्च वृषभस्तत्र नर्दन्नस्ते महाबलः धनदं राक्षसाश्चान्ये पिशाचाश्च उपासते पारिषदैः परिवृतम् उपायान्तम् महेश्वरम् सदा हि देवदेवेशं शिवं त्रैलोक्यभावनं प्रणम्य मूर्ध्ना पौलस्त्यो ततो महादेव आस्ते कदाचिभवाो धनपते सखा निधि प्रवर मुख्यौ चंखपदनेशरौ सर्वान्धी प्रगृहत उपा ते धनेशर सा सभा तादृशी रम्या मया दृष्टान्तरिक्षगा पितामहसभां राजन् कीर्तयिष्ये निबोधताम् इति श्रीमहाभारते सभापर्वणि लोकपालसभाख्यानपर्वणि धनदसभावर्णनं नाम दशमोऽध्यायः